पनेटावद्दशकम् मृतुचरित्रम् जातस्य ध्रुवकुल एव तुङ्गकीर्ते अङ्गस्य व्यजनिसुतसवेन नाम तद्दोष व्यतितमतिस्सराजवर्य त्वत्पादे विहितमनाभनम् गतो भोत् पापोऽपि शिथितलपालनायवेन पौराद्यैः उपनिषतकठोरवीर्य सर्वेभ्यो निजबलमेव सम्प्रशंसन् भूचक्रे तव यजनान्ययम् सम्प्राप्ते हितकथनायतापसौघे मत्तोऽन्यो भुवनपतिर्नकच्छने ते त्वन्निन्दा वचनपरो मुनीश्वरैस्तै सलबत शलबतशामनायिवेन तन्नाशात् कलजनबीरुकैर्मुनीन्त्रै तन्मात्र शिरपरिरशिते तदङ्के त्यग्दाके परिमदिदातयोरुदण्डा दोर्दण्डे परिमतिते त्वमाविरासी विख्याथ प्रदुरितितपोसोपदिष्टै सूदाद्यै परिणुतभावि वेनार्ध्या वेनाद्या कपलितसम्बतम् दरिद्री आग्रान्था निजदनुषा समामहर्षि भूयस्था निजकुलमुख्यवत्सयुक्तै देवाद्यै समुचितचारुभाजनेषु न्नादीन् अभिलषितानि यानि तानि स्वच्छन्तम् सुरभितनोमदूतु हस्त्वम् आत्मान यजतिमकैस्त्वयितृतामन् आरब्धे शतदमवाजिमेदयागे स्पर्धालु शतमक हृद्वा स्वम् तव तनयात्पराजितोऽभूत् देवेन्द्रम् मुकुरुति वाजिनम् हरन्तो वक्नौ तम् मुनिवरमण्डले जुहूषो वृन्दाने कमलभवे क्रतो समाप्तो साक्षा त्वम् मधुरिपुमैषता स्वयम् स्वम् तद्दत्तम् वरमुपलभ्य भक्तिमेका गङ्गान्ते विहितपदः कथाविदेव सत्रस्तम् मुनिमिवहम् सनकमुखान्मुनीम् पुरस्ताद् विज्ञानम् सनकमुगोदितम् दधान स्वात्मानम् स्वयमगमो वनान्तसेवे तद्दादृ धृतुवपुरीशसत्वरम् मे रोघौघम् प्रशमयवादगेहवासिन् OM NAMO DHA RAYAN HAYAM